अथ व्योमवर्गः द्यो दिवौ द्वे स्त्रियामभ्रम् व्योमपुष्करमम्बरम् नभोऽन्तरिक्षङ्गगनम् अनन्तम् सुरवर्त्मखम् वियद्विष्णुपदम् वा तारापथोऽन्तरिक्षम् च मेघाध्वाचमहाबिलम् विहाया शकुने पुंसि गगने पुन्नपुंसकम् इति व्योमवर्गः